सप्तषष्टितमः सर्गः ते निवृत्ता महाकायाः श्रुत्वा गदवचस्तदा बुद्धिमास्थाय सर्वे सङ्ग्रामकाङ्क्षिणः समुदीरितवीर्यास्ते समारोपितविक्रमाः पर्यवस्थापिता वाक्यैरङ्गदेन बलीयसा प्रयाताश्च मरणे कृतनिश्चयाः चक्रुःसु तु मुलम् युद्धम् वानरास्त्यक्तजीविताः अथ वृक्षान्महाकायाः सानूनि प्रकीर्णा शेरते भूमौ कुम्भकर्णेण ताडिताः षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च परिक्षिप्य च बाहुभ्याम् खादम् सपरिधावति भक्षयन् भृशसङ्क्रुद्धो गरुडः पन्नगानि वा च समाश्वस्ताः सङ्गम् य ततस्ततः वृक्षाद्रिहस्ता हरयस्तस्थोः ततः पर्वतमुत्पाट्य द्विविधः प्लवगर्षभः दुद्रावगिरिशृङ्गाभम् विलम्ब यदः तम् समुत्पाट्य चिक्षेपकुम्भकर्णाय वानरः तमप्राप्य तच्छैलवेगाभिहतम् हताश्वम् हतसारथिम् रक्षसा मृधिरक्लिन्नम् बभू वायोधनम् महत् प्रथिनो वानरेन्द्राणाम् शरैः कालान्तकोपमैः शिरांसि नर्दताम् जह्रः सहसा रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् हनूमाञ्छैलशृङ्गाणि शिलाश्च विविधान् द्रुमान् ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः तानि पर्वतशृङ्गाणि शूलेन स बिभेदः बभञ्जवृक्षवर्षम् च कुम्भकर्णो महाबलः ततो हरीणाम् तदनीकमुग्रम् दुद्रावशूलम् निशितम् प्रगृह्य तस्थौ स तस्यापततः परस्तान् महीधराग्रम् हनुमान प्रगृह्या सकुम्भकर्णं कुपितो जघान वेगेन शैलोत्तम भीमकायम् सञ्चुक्षुभेतेन तदाभिभूतो मेधार्धगात्रो रुधिरावसिक्तः सशूलमाविध्य तडित् प्रकाशम् गिरिम् यथा प्रज्वलिताग्रिशृङ्गम् बाह्वन्तरे मारुतिमा जघान गुहोऽचलम् क्रौञ्चमिवोऽग्रशक्त्या स्वशूलनिर्भिन्न महाभुजान्तरः प्रविह्वनः शोणितमुद्वमन्मुखात् ननादभीमम् हनुमान् ततो विनेदुः सहसा प्लवङ्गमास्तु व्यथिता भयार्ता ततस्तुनीलो संयति बलवान् पर्यवस्थापयन् बलम् प्रविचिक्षेप शैलाग्रम् कुम्भकर्णाय धीमते तदा पतन्तम् सम्प्रेक्ष्य मुष्टिनाभिजघानः मुष्टिप्रहाराभिहतम् तच्छैलाग्रम् व्यशीर्यत निपपातमहीतले ऋषभः शरभो नीलो गवाक्षो गन्धमादनः पञ्चबाणरशार्दूलाः कुम्भकर्णमुपाद्रवन् शैलैर्वृक्षैस्तनैः पादैर्मुष्टिभिश्च महाबलाः कुम्भकर्णम् महाकायम् निजघ्नुः सर्वतो युधि स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे वृषभन्तु महावेगम् बाहुभ्याम् कुम्भकर्णभुजाभ्याम् तु पीडितो वानरर्षभः नरर्षभः निपपातर्षभो भीमः प्रमुखागतशोणितः मुष्टिनाशरबम् हत्वा जानुना नीलमाहवे आजघानगवाक्षम् तु तलेनेन्द्ररिपुस्तदा पादेनाभ्यः नत्क्रुद्धस्तरसा गम्धमादनम् दत्त प्रहारम् निपेतुस्ते तु मेदिन्याम् निकर्ता इव किंशुकाः पातितेषु महात्मसु वानराणाम् सहस्राणि कुम्भकर्णम् प्रदुद्रुवुः तम् शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः समारुह्य समुत्पत्य ददम् शुश्च महाबलाः कुम्भकर्णम् महाबाहुम् निजघ्नः प्रवगर्षभाः स वानरसहस्रैस्तु विचितः पर्वतोपमः रराजराक्षसव्याघ्रो गिरिरात्मरुहैरिव बाहुभ्याम् वानरान् सर्वान् प्रगृह्य स महाबलः भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव कुम्भकर्णेन वक्त्रे पातालसन्निभे नासापुटाभ्याम् सञ्जग्मुः कर्णाभ्याम् चैव वानराः भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः बभञ्जवानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः मांसशोणितसङ्क्लेदान् कुर्वन् भूमिम् स राक्षसः चचार वज्रहस्तो यथा शक्तः इवांतकः शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः तथा वानरसैन्यानि कुम्भकर्णो ददाहसः ततस्ते वध्यमानास्तु हतयूथाः प्लवङ्गमाः वानराभयसंविज्ञाविने दुर्विकृतैस्वरैः अनेकशो वध्यमानाः कुम्भकर्णेन वानराः राघवम् शरणम् भिन्न चेतसः प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तात्मजात्मजः अभ्यधावत वेगेन कुम्भकर्णम् महाहवे शैलशृङ्गम् महद्गृह्य विनदन् स त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् शिक्षेपशल शिखर कुंभकर्ण से मूर्धनी सैनाह मूर्धिशलिपुस्तदा कुंभकर्ण प्रज्ज्वाल क्रोधे न महता तदा सोभ्यधात वेगेन वालीपुत्र कुंभकर्णो महानादस्त्रसन सर्वनरा शूल ससर्ज वैरोदंग महाबल तदा पतन्तम् बलवान् युद्धमार्गविशारदः लाघवान् मोक्षयामास बलवान् वानरर्षभः उत्पत्यचैनं तरसा तले ताडयत् स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः सलब्धसम् ज्ञोति बलो मुष्टिम् सङ्गृह्य राक्षसः अपहस्तेन चक्षेप विसञ्ज्ञः तस्मिन्प्लवकशाद्दूले विसञ्ज्ञेपतिते भुवि तच्छूलम् समुपादाय सुग्रीवमभिदुद्रुवे तमापतन्तम् सम्प्रेक्ष्य कुम्भकर्णम् महाबलम् उत्पपात तदा वीरः सुग्रीवो वानराधिपः सपर्वताग्रमुत्क्षिप्य समाविध्यमहाकपिः अभिदुद्राववेगेन कुम्भकर्णम् महाबलम् तमापतन्तम् सम्प्रेक्ष्य कुम्भकर्णः पवङ्गमम् तस्थौ विवृत्तसर्वाङ्गो वानरेन्द्रस्य सम्मुखः कपिशोणितदिग्धाङ्गम् भक्षयन्तम् महाकपीर कुम्भकर्णम् स्थितम् दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् पातिताश्च त्वया वीराः कृतम् कर्मसु प्राप्तन्ते परमञ्जषः त्यज तद्वानरानीकम् प्राकृतैः किम् करिष्यसि सः स्वैकम् निपातम् मे पर्वतस्यास्य राक्षसा तद्वाक्यम् हरिराजस्य सत्त्वधैर्यसमन्वितम् श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः प्रजापतेस्तु पौत्रस्तं तथैवर्क्षरजः सुतः धृतिपौरुषसम्पन्नस्तस्माद्गर्जसि वा स कुम्भकर्णस्य वचोनिशं यव्याविध्य शैलम् सहसा शैलेन वज्राशनि सन्निभेन त्वच्छैल शृङ्गम् सहसा तस्य तदा विशाले ततो विषेदुः सहसा स शैल शृङ्गाभिहतश्चुकोपननादरोषाच्च विवृत्य वक्त्रम् या विध्यशूलम् सतटित् प्रकाशम् चिक्षेप हर्यृक्षपतेर्वधाय तत्कुम्भकर्णस्य भुज प्रणुन्नम् शूलम् शितम् काञ्चन दामयष्टिम् क्षिप्रम् समुत्पत्य निगृह्य दोर्भ्याम्बभञ्ज वेगेन कालाय सम्महत् बभञ्जजानुमारोप्य तदा हृष्टः शूलं शूलम् भग्रम् हनुमता दृष्ट्वा वानरवाहिनी हृष्टा ननादबहुशः सर्वतश्चापि दुद्रुवे बभूवाथ परित्रस्तो राक्षसो विमुखो भवत च चते चक्रः प्रहृष्टावनगोचराः मारुतिम् पूजयाञ्चक्रुर्दृष्ट्वा शूलम् तथा स तत्तथा भग्नमवेक्ष्य शूलम् चुकोपरक्षोऽधिपतिर्महात्मा उत्पाट्यलङ्कामलयात् सशृङ्गम् जघान सुग्रीवमुपेत्य तेन सशैलशृङ्गाभिहतो विसञ्ज्ञः पपात भूमौ तम् वीक्ष्य भूमौ पतितम् समभ्युपेत्याद्भुतघोरवीर्यम् स कुम्भकर्णो युधि वा नरेन्द्रम् जहार सुग्रीवमभिप्रगह्य यथानिलो मेघमिव प्रचण्डः सतम् महामेघ निकाष ततस्तमादाय जगाम वीरः संस्तूयमाणो युधिराक्षसेन्द्रः शृण्वन्निनादम् त्रिदिवालयानाम् प्लवङ्गराजग्रह विस्मितानाम् ततस्तमादाय तदा समे ने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः अस्मिन् हते सर्वमिदम् हतम् स्यात् स राघवम् सैन्यमितीन्द्रशत्रुः विद्रुताम् वाहिनीम् दृष्ट्वा वानराणामितस्ततः कुम्भकर्णेन सुग्रीवम् गृहीतम् चापि वानरम् हनूमांश्चिन्तयामासमतिमान्मारुतात्मजः एवम् गृहीते सुग्रीवे किम् कर्तव्यम् मया भवेत् यद्धि न्याय्यम् मया कर्तुम् तत् करिष्याम्यसंशयम् भूत्वा पर्वतसंकाशो सङ्काशो नाशयिष्यामि राक्षसम् मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेः विमोचिते वानर पार्थिवे च भवन् दु हृष्टाः अथवा स्वयमप्येष मोक्षम् प्राप्स्यति वानरः गृहीतोऽयम् यदि भवेत् त्रिदशैः सासुरोरगैः मन्येनतावदात्मानं तावदात्मानम् बुध्यते वानराधिपः शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे महाहवे आत्मनो वानराणाम् च तत्करिष्यति मया सुग्रीवस्य महात्मनः अप्रीतिश्च भवेत् कष्टाकीर्तिनाशश्च शाश्वतः तस्मान्मुहूर्तम् काङ्क्षिष्ये विक्रमम् मोक्षितस्य तु भिन्नम् च वानरानीकम् तावदाश्वासयाम्यहम् इत्येवम् चिन्तयित्वा च हनूमान् मारुतात्मजः भूयः संस्तम्भयामास वानराणाम् महाचमू स कुम्भकर्णोऽथ विवेशलङ्काम् विमानचर्याग्रह गोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमानः लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः राजवीथ्यास्तु शीतत्वात् सञ्ज्ञाम् अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा एवम् गृहीतेन कथम् नु नाम शक्यम् मया सम्प्रति कर्तुमद्य तथा करिष्यामि यथा हरीणाम् भविष्यतीष्टम् च च कार्यम् ततः सहसा समेत्य राजा हरीणामरेन्द्रशत्रोः खरैश्च कर्णौ दशनैश्च नासाम् ददंश पादैर्विदार सकुम्भकर्णो हृत सो विदारितस्तेन हृदैर्नखैश्च रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्यभि पेषभूमौ स भूतले भीमबलाभिपि भी पिष्टः सुरारिभिस्तैरभिहन्यमानः जगामखम् कन्दुकवज्जवेण पुनश्च रामेण समा जगाम कर्णनासा महाबलः रराजशोणितोत्सिक्तो गिरिः प्रस्रवणैरिव शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः युद्धायाभिमुखो भी भूयो मनश्चक्रे निशाचरः अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः नीलाञ्जनचयप्रख्यः ससन्त्य इव तो यदः गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्रावरणाय भूयः हनायुधोऽस्मीति विचिन्त्य रौद्रो घोरम् तदामुद्गरमाससाद ततः स बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृद्धः बुभुक्षित शोणित मांस गृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् चखाद रक्षांसि एकम् द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः समादायैकहस्तेन प्रचिक्षेपत्वरन्मुखे सम्प्रस्रवम्स्तदा मे दशोणितम् च महाबलः वध्यमानो नगेन्द्राग्रैर्भक्षयामास ते भक्ष्यमाणा हरयो रामं जग्मस्तदा कुम्भकर्णो भृशङ्क्रुद्धः कपीन् प्रधावति शतानि सप्त चाष्टौ च चा विंशत्त्रिंशत्तथैव च सम्परिष्वज्य बाहुभ्याम् पादम् विपरिधावति मेदोऽवसाशोऽत दिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः ववर्षशूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव परबलार्दनः चकारलक्ष्मणः क्रुद्धो युद्धम् परपुरञ्जयः स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् विचखानाददेचान्यान् विससर्ज च लक्ष्मणः पीड्यमानस्तदस्त्रम् तु विशेषम् तत्सराक्षसः ततश्चुकोपबलवान् सुमित्रानन्दवर्धनः अथास्य कवचम् शुभ्रम् जाम्बूनदमयम् शुभम् प्रच्छादयामासशरैः सन्ध्याभ्रमिव मारुतः नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमार् ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् सावज्ञमेव प्रोवाच वाक्यम् मेघौ घनिस्वनः युधिजेतारमाहवे युध्यता ख्याता वीरतागृहता युध्येह मृत्योरिवहामुे ठन्नप्यग्रत पूज्य किम युद्ध प्रदायक ईरावत सरूो वृत सर्वाम प्रभु नाव शक्रोपूर्व कदाचन अद्य हम सौम बाक्रमे स्तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् यत्तु वीर्यबलोत्साहैस्तोषितोऽहम् रणे त्वया राममेवैकमिच्छामि हन्तुम् यस्मिन् हते हतम् येन्ये स्थास्यन्ति संयुगे तानहम् मृधे घोरतरम् वाक्यम् सौमित्रिः प्रहसन्निव यस्त्वम् शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम् तत्सत्यम् नान्यथा वीरदृष्टस्तेऽद्यपराक्रमः एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः इति श्रुत्वा ह्यनादृत्य लक्ष्मणम् सनिशाचरः अतिक्रम्य च सौमित्रिम् महाबलः राममेवाभिदुद्रावकम्पयन्निव मेदिनीम् अथ दाशरथी रामो प्रयोजयन् कुम्भकर्णस्य हृदये ससर्जनिशिताञ्छरान् तस्य रामेण विद्धस्य सहसाभिप्रधावतः अङ्गारमिश्राः क्रुद्धस्य मुखान् निश्चेरुरर्चिषः रामास्त्रविद्धो घोरम् वै राक्षसपुङ्गवः अभ्यधावत संक्रुद्धो हरीन् विद्रावयम् रणे तस्योरसि निमग्नास्ते शराबर्हिण वाससः हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्याम् पपातः आयुधानि च सर्वाणि विप्रकीर्यम् त भूतले स यदा मेने महाबलः मुष्टिभ्याम् चकराभ्याम् च चकारकदनम् चकरा महत् सबानेरते बाणैरति विद्धाङ्गः क्षतजेन समुक्षितः रुधिरम् परिशुश्रावगिरिः प्रस्रवणम् यथा सतीव्रेण च कोपेन रुधिरेण च मूर्च्छितः वानरान् राक्षसा नृक्षान् खादम् सपरिधावति अथ शृङ्गम् समाविध्य भीमम् भीमपराक्रमः चिक्षे पराममुद्दिश्य बलवानम् तकोपमः अप्राप्तमन्तरा रामः सप्तभिस्तमजिम्मगैः चिच्छेदगिरिशृङ्गम् तम् पुनः सन्धायकार्मुकम् ततस्तु रामो धर्मात्मा तस्य शृङ्गम् महत्तदा शरैः काञ्चन चित्राङ्गैश्चिच्छेदभरताग्रजः तन्मेरुशिखराकारम् द्योतमानमिव श्रिया द्वेषते वानराणाम् च तस्मिन्काले काले सधर्मात्मा लक्ष्मणो राममब्रवीत् कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् नैवायम् वानरान् राजन्न विजानाति राक्षसान् मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति साध्वेन मधिरोहन्तु सर्वतो वानरऋषभाः यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्मिन् समन्ततः अध्यायं दुर्मति काले गुरुभार प्रपीडि प्रचरन राक्षसो भूमौ नान्यालवंगचनम श्रुवा राजपुत्र से भीमता ते सरुर्ष्टा कुंभकर्णम महाबला कुंभकर्णस्त सक्रुद्ध सूढ़ प्लवंगमोनयत्ता वेगेन दुष्ट हस्तीव हस्ति तान् दृष्ट्वा रुष्टो यमितिराक्षसं समुत्पपात समुत्पपातवेगेन धनुरुत्तममाददे क्रोधरक्ते क्षणो धीरो निर्दहन्यव चक्षुषा राघवो राक्षसम् वेगादभिदुद्राववेगितः यूथपान् हर्षयन् सर्वान् कुम्भकर्णबलार्जितान् स चापमादाय भुजङ्गकल्पम् दृढज्यमुग्रम् हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः स वा महाबलः हा। सददर्शमहात्मानम् किरीटनमरिन्दमम् शोणिताप्लुतरक्ताक्षम् कुम्भकर्णम् मार्गमानं हरीन् क्रुद्धम् राक्षसैः परिवारितं। विन्ध्यमन्दर सङ्काशम् काञ्चनाङ्गदभूषणम् स्रवन्तम् रुधिरम् वक्त्राद्वर्षमेघमिवोत्थितम् जिह्वया परिलिह्यन्तम् सृकिणी शोणितोक्षिते मृद्गन्तम् वानरानीकम् कालान्तकयमोपमम् दृष्ट्वा राक्षसश्रेष्ठम् प्रदीप्तानलवर्चसम् विस्फारयामासतदा कार्मुकम् पुरुषर्षभः सतस्य चापनिर्घोषात् कुपितो राक्षसर्षभः अमृष्यमाणस्तम् घोषमभिरुद्रावराघवम् ततस्तुवातोद्धतमेघकल्पम् भुजङ्गराजोत्तम भोगबाहुः तमापतन्तम् धरणीधराभमुवाच रामो आगच्छ रक्षोऽधिपमाविषादमवस्थितोऽहम् प्रगृहीत चापः अवेहि माम् राक्षसवंशनाशनम् यस्त्वम् मुहूर्ताद्भविता विचेताः रामोऽयमिति विज्ञाय जहासविकृतस्वनम् अभ्यथावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे प्रहस्य विकृतम् भीमं समेघस्तनितोपमम् कुम्भकर्णो महातेजा राघवम् वाक्यमब्रवीत् नाहम् विराधो विज्ञेयो न कबन्धःखरो न च न वाली न च मारीचः कुम्भकर्णः समागतः पश्य मेमुद्गरम् भीमम् सर्वम् कालाय सम्महत् अनेन निर्जिता देवा दानवाश्च पुरामया विकर्णनास इति माम् नावज्ञातुम् त्वमर्हसि स्वल्पापि हि न मे पीडा कर्णनासा विनाशनात् दर्शयेक्ष्वाकुशार्दूलवीर्यम् गात्रेषु मेन घा ततस्त्वाम् भक्षयिष्यामि दृष्टपौरुष विक्रमम् सकुम्भकर्णस्य वचो निशम्य तैराहतो वज्रसमप्रवेगैर्न चुक्षुभेण व्यथते सुरारिः यैः सायकैः वाली हतो वानर ते कुम्भकर्णस्य तदा शरीरम् वज्रोपमानव्यथयाम् प्रचक्रुः सवारि धारा इव सायकाम् जघान रामस्य शर प्रवेगम् व्याविध्यतम् मुद्गरमुग्रवेगम् ततस्तु रक्षः क्षतजानुलिप्तम् वित्रासनम् देव महाचमूनाम् रामः प्रचिक्षेप समुद्गरं तेन जहार बाहुंसकृत्त बाहुस्तु मुलन्ननाद स तस्य बाहुर्गिरिशृङ्गकल्पः राघव बाणकृत्तः पपात हरिराजसैन्ये जघानताम् वानर वाहिनीम् च ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा प्रपीडिताङ्गादृशः सुघोरम् नरेन्द्र रक्षोऽधिपसन्निपातम् सकुम्भकर्णोऽस्त्र निकृत्त बाहुर्महासि कृत्ताग्र इवाचलेन्द्रः उत्पाटयामासकरेण वृक्षम् ततोऽभिरुद्रावरणे नरेन्द्रम् तन्तस्य बाहुम् सहतालवृक्षम् समुद्यतम् पन्नगभोगकल्पम् ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनद चित्रितेन स कुम्भकर्णस्य भुजोऽकत्तः पपात भूमौ गिरिसन्निकाशः विचेष्टमानोऽ जघान वृक्षाञ्छैलाञ्छिलावानर राक्षसांश्च तम् द्वावर्धचन्द्रौ निशितौ प्रगृह्यचिच्छेदपादौ युधि राक्षसस्य तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवम् तौ विनिपेततुश्च निकृत्त बाहुर्विनिकृत्त बडवामुखाभम् रुद्रावरामम् सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे अपूरयत्तस्य मुखम् शिताग्रैराम शरैर्हेमपि नद्ध पुङ्खैः सम्पूर्ण वक्त्रो न शशाक वक्तुम् चुकूज कच्छेण मुमूर्ध अरिष्टमयीन्द्रम् निशितम् सुपुङ्खम् रामः शरम् मारुत तुल्यवेगम् तम् वज्रजाम्बूनद रामः प्रचिक्षेप निशाचराय ससायको विधूम वैश्वानर भीम दर्शनो जगाम शक्राशनि भीम विक्रमः सतन्महापर्वतकूटसन्निभम् सुवृत्तदंष्ट्रञ्चलचारु कुण्डलम् चकर्तरक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरम् दरः कुम्भकर्ण शिरोभाति कुण्डलालङ्कृतम् रात्रौ मध्यस्थ चन्द्रमाः तद्रामबाणाभिहतम् पपात रक्षः शिरः पर्वत सन्निकाशम् बभञ्जचर्या गृह गोपुराणि प्राकारमुच्चम् तमपातयच्च तच्चातिकायम् हिमवत् प्रकाशम् रक्षस्तदातोय निधौ पपात ग्राहान् परान् मीनवरान् भुजङ्गमान् ममर्द भूमिम् च तथा विवेश तस्ते ब्राह्मण देश शत्रु महाबले संयति कुंभकर्णे चचा चा लूर्भूमिधरा हर्षाच दवास्तु मुल प्रणेदु ततस्त देवर्षि महर्षि पन्न सुसुरा भूताुह्य सक्ष गणा नो गता प्रहर्षिताक्रमेण ततस्तते ते तस्य वधेन भूरिणा मनस्विनो नैरृतराजबान्धवाः विनेदुरुच्चैर्व्यथिता रघूत्तमम् हरिम् समीक्ष्यैव यथा मतङ्गजाः सदेव लोकस्य तमो निहत्य सूर्यो यथा राहु मुखाद्विमुक्तः तथा व्यभासीद्धरि सैन्यमध्ये निहत्य रामो युधि प्रहर्ष मीयुर्बहवश्च वानराः प्रबुद्ध पद्म प्रतिमैरिवाननैः अपूजयन् राघवमिष्टभागिनम् हते रिपौ भीमबले नृपात्मजम् सकुम्भकर्णम् सुरसैन्यमर्दनम् महत्सु युद्धेषु कदा जनाजितम् ननन्दहत्वा भरताग्रजोरणे महासुरम् वृत्रमिवामराधिपः त्यादर्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः